ta yeah. तू आदि गौ ना so sure. that sure. अकृत्त ए प्रत्यय प्रथमतत्पुरुषः समननिकर्णः कर्मधारयः प्रथमानिर्दिष्टम् समास उपसर्जनम् एकविभक्ति च पूर्वनिपाते अर्थवदधातुः प्रातिपलिकम् कृतखिलसमासाश्च हरस्वणपुरुषये प्रातिपदिकस्य गोत्रियोपसर्जनस्य लोक्तदितलुकेण्याः कोण्या हितकोण्याः लुक्तदितलुके विद्गोर्णः लोक्तदितलोके गोण्या क्तवीतवत् व्यक्तिवचने व्यक्ति वचने व्यक्ति वचने योक्तवत् व्यक्तिवचने वचने लक्ष्मी युक्तावा युक्तावा युक्तावा युक्ता वरता रेता रे आव युक्तावा युक्तावा मे युक्तावा युक्तावा याक्ति वचने याक्ति वचने याक्ति नचें याक्ति वचने युक्तावा याक्ति वचने युक्तावा युक्तावा याक्ति गोण्या युपि व्यक्तिवचने एोण्या योगियुक्तवचने गोण्या यदि युक्तवस्त्रवचने युगियुक्तवचने युक्तवस्ति वचने यु युक्तवान् व्यक्तिवचने विशेषणाञ्च जाते वचने जाते योगियुक्तवत् वचने विशेषणा योगियुक्तवत् व्यक्तिवचने निशेषणां च जाते परशिष्यं सत्या दिवस विशेषा चा जाते कद शिश्रम संवाद नियुक्त दिवस विशेषा चाते श जाते व्यावचनेशेषण तदशिष्य स शिष्यम् तदशिष्यम् सञ्ज्ञाप्रमाणत्वात् युगुयोगाप्रख्यानात् विशेषणानाम् च माणे च तद्भावेन दर्शनं स्यात् योगप्रमाणे च तद्भावे दर्शनं स्यात् योगप्रमाणे च तद्भावे दर्शनं योग प्रमाणे भावे योगप्रमाणे च योगप्रमाणे च योग े च तद्वारे दम् तद् शिष्यं समाणत्वात् लुभिोगा प्रख्यानात् योगप्रमाणे च तद्वारे दर्शनं स्यात् तद् शिष्यं सञ्ज्ञा प्रमाणत्वात् लुभियोगा प्रख्यानात् तद्भावे दर्शनम् च प्रधानप्रत्ययात् वचनमर्थ्य प्रमाणं च प्रधान प्रत्ययात् वचनस्याम् प्रमाणत्वात् प्रधानप्रत्ययात् प्रमाणत्वात् दुर्योगाख्यानात् योगप्रमाणे च तद्भावे दर्शनं स्यात् मानुसन्नप्रमाणत्वात् नृयोगाप्राणा योगप्रमाणे च योगाप्र्यानात् योगप्रमाणे च कर्मावेदर्शनम् चानुकृत्यार्थस्यान्यप्रमाणत्वात् दुर्योगातख्यानात् योगप्रमाणे च लोपसर्जने चातुल्यम् कालोपसर्जने च कालोपसर्जने च कालोपतजने च च तुल्यं तुल्यं तुल्यं तुल्यं तुल्यं तुल्यं कालोपसर्जन तदशिष्यम् सञ्ज्ञात्वात् का योगियोगा कक्षात् योगप्रमाणे च प्रत्यात्मचनमर्शस्यान्यप्रमाणत्वात् तुल्यम् तद् शिष्यम् सञ्ज्ञा प्रमाणत्वात् लुपि योगा प्रख्यानात् योग तुल्यम् चातव्यम् चात्यम् सुधान प्रत्ययात् वचनमर्थस्यानि प्रमाणत्वात् कालोपसारणे चातुल्यम् जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् अस्मदोषयोश्च पदानाञ्च नक्षत्रे रणे च तुल्यम् यात्याखायामेकस्मिन् बहुवचनमन्वितदर्श्याम् अस्मदोद्भयोश्च अल्पुणीकोशुपदानाम् च नक्षत्रे दलशिष्यं संज्ञा प्रमाण योगा प्रख्या प्रमाणे तद भाव दर्शनम सधान च कालोपसने तुय्य जात बहुवचनमतर अस्मदोद्भयोश्च भाल्मुनि प्रोचबलानाम् च नक्षत्रे अपहृत्त एकालप्रत्ययः तत्पुरुषः समानाधिकरणः कर्मधारयः प्रथमानिर्दिष्टम् समासो सज्जनम् एकविभक्ति च पूर्वनिपाते अर्थबलधातुरप्रत्ययः प्रातिपदिकम् कृतधितसमासा ह्रस्वानुपुंसके प्रातिपदिकस्य गोस्ल्यौपसनश लुप्पिती लुपियुक्तव्यक्तिवचने विशेषा चा जाते तदशिष्यं संगाख्याप्रणे चल्वे दर्शनम सत् प्रधानप्रत्ययात् वचनमर्थस्यान्यप्रमाणत्वात् कालोपसर्जने च तुल्यम् जात्याशायामेकस्मिन् बहुवचनमन्यसरस्याम् अस्मदोर्भयोस्याम् अल्मुनि दोषफलानाम् च न सत्य प्रत्ययः तत्पुरुषासमानाधिकरणम् कर्मधारया प्रथमा निर्दिष्टम् समास उपसर्जनम् एकविभक्ति च पूर्वनिपाते अर्धवद्धातुरा प्रत्यया प्रातिपदिकम् वृत्तद्धिरसमासाश्च हरष्कोलम् सुके प्रातिपदिकस्योरुपसर्जनस्य लुप्तदितलुके कीर्गोण लुपयोगा व्यक्तिवचने विशेषणानाम् चाघापे जा तदशिष्टम् सञ्ज्ञा तत्पुरुषा समानाधिकरणा कर्मधारया प्रथमा निर्दिष्टम् समास उपसर्जनम् एकविभक्ति च पूर्वनिपाते अर्धभदधातुरावृत्तयः प्रातिपदिकम् जनस्य लोक्तवी इन्दोणा लि उक्तवपि वचने विशेषणा एका प्रत्यापता समानाधिकरण कर्मधारया समानृष्टं समासनुसनं एक विभक्ति पूर्वनिपाते अर्थं तद्वि गौरश्यरूपे किन् लुपियुक्तवल्पि वचने विशेषणाम् चाजाते तदशिष्यम् सञ्ज्ञात्वा